मुद्गलपुराणं खण्डं त्रिमहोदरचरितम् अध्यायं फोर्टी नैन् सुबोधभक्तिवर्णनं श्रीगणेशाय नमः श्रीकृष्ण उवाच काव्यशिष्या गतास्तत्र यत्र दैत्याधिपो भवद सभासनस्तमूचुस्तं दृष्ट्वा भयसमन्विताः शुक्रशिष्यावुचुः ज्ञानारे शृणुवाक्यम् नो दारुणम् विपरीतगम् पुत्रस्ते भून्मदोत्सिक्तः सर्वदास्मानुपेक्षते उल्लङ्घ्य सर्वमस्माभिकथितम् जातिदूषणम् करोदि स्वमतेनायमन्यान् सम्बोधयम् तथा विदृहन्तारमत्यन्तम् सदा स्मरति भक्तिदः तिरस्कृत्य महाराज त्वामस्मान्नात्र संशयः अथ कथयितुम् जादा शिक्षयस्व स्वपुत्रकम् वयम् शिक्षयितुम् शक्दा न विनीदम् महामते श्रीकृष्ण उवाच तेषाम् वचनमाकर्ण्यक्षोभिदो दैत्यनायकः प्रशयामसदूतं स पुत्र माने दुमन्धिके दूतेनागदमेवं तं पुत्रं दृष्ट्वा महासुरः उवाच कृतवन्तं तं प्रणामं क्रोधसंयुधः ज्ञानाजिरुवाच किं तिरस्कृत्यरेवत्स गुरोन् स्मरसि तद्वद हितं ते हृदये किं च वर्धदे कुलपांसन पितुर्वचनमाकर्ण्यक्रोधयुक्तः सुबोधकः उवाच पितरं भ्रान्तं मायया गणपस्य सः सुबोध उवाच सर्वेषां कुलदेवं च सर्वेषां हितकारकं भुक्तिमुक्तिप्रदं तादभजामि गणनायकम् ब्रह्म दे कश्यपादिमुनीश्वरैः पूजितं कुलवृद्ध्यर्थं योगशान्त्यर्थमादराद कश्यपाद् वयमुत्पन्ना देवा दैत्यास्तथा नरः जन्धवो विविधाश्चैव तेषां स्वामी तथा भवद भजामि गणनाथं वै अदोऽहं सर्वभावदः तमनादृत्यदैत्यस्य न लभदे पुमान् तस्य तद्वचनं श्रुत्वा क्रोधयुक्तो महासुरः जगाद तं धर्मराजमुखादनलमुद्वमन् ज्ञानारिरुवाच अस्माकं शत्रवो देव दैत्यानां नात्र संशयः सुरासुराश्च वेदेषु प्रोक्ता पश्य सुदुर्मदे तत्राप्ययं पितुर्हन्ता मम भजसे मुधा बालभावे मया ज्ञातं ते रिपुश्रितं बालमत्वान मत्वा हवान् कृपया शठ अधुना तादृशम् मत्वा न मुञ्चामि कदाचन त्यज शत्रुर्महामूर्ख नो चेद्धन्यधुना किल एवमुक्त्वा खगहस्तो दुद्रावस्व सुदं नृप दैत्यराजं स उवाच तनयो किं दर्शयसि मां तादभ्रान्तिभावेन मोहितः सर्वसत्ताधरप्रोक्तो वेदेषु गणनायकः तस्य सत्ताम् परित्यज्य किम् माम् हंसि त्वमेव च गणेशो नात्र उद्धतम् हन्दिवेगेन नानारूप धरः प्रभुः ब्रुवन्तम् स्वसुदं दृष्ट्वा भयहीनम् युधिष्ठिर स्वयं तत्र संस्थितो दैत्यनायकः दूदानाज्ञापयामास शस्त्रास्त्राय स्वसु तस्य पदार्थं ते दैत्यगणा क्रोधयुक्ता नाना नानादयुधा सर्वे नग्नशास्त्रधराययुः हन्दुं तं तानधो दृष्ट्वा सुबोधो निर्भयो बभौ गणेशभजने सकृतो बभुवनचालः देहप्रारब्धभावेन भवेत्तन्मे गजानन विघ्नेशहैरम्ब जयाखिलेश स्वानन्दवासिन् जय वक्रतुण्ड नादोऽसि सर्वत्र जगत सुढुण्ढे लम्बोदर ब्रह्म सुदेमो वै इत्याद्यैर्विविधैर्वाक्यैर्गणेशमभजत्सुतः तं तथा क्रोधसंयुक्ता जगृदैत्या महाबलाः नानाशास्त्रनिपातैस्ते स्त्रैः सर्वत्र युधिष्ठिर गणेशस्तस्य देहस्थो निष्फलांस्तांश्चकारः क्रोधानलेन सर्वान् स दापयामास विघ्नवः तदपलायनं दैत्याः प्राणपरीप्सया तद्रिष्ट्वा परमाश्चर्यं ज्ञानाय क्रोधमूर्च्छिदः श्रेष्ठानाज्ञापयामा स्वसुतस्य वै चतुरङ्गबलैर्युक्ता दैत्यशास्त्रं समाययुः अमोखास्त्रै सुबोधं ते जघ्नु परमदारुणाः गणेशभक्तिं तां सोऽविचक्रे वै निर्भयो दृढां जय देवेश महोदर नमोऽस्तु दे तस्य देहान् महान् अग्निः सह समुत्पन्नप्रजज्वाल दैत्येषान् क्षणमात्रदः ते मे कास्त्राणि ससृजुस्तैर्नशान्दो बभूवः ददाः सकलांस्तत्र प्रलयाग्निशमश्च तान् मृता सर्वे सुराणां वैनायकास्तत्र खेद संयुतः प्रधानै स पुत्रं तत्याज तत्क्षणाद शुक्रं तपसि तिष्ठन्तं ज्ञात्वा क्रोधं नियम्यच च मेधावी स यदा शुक्र आगमिष्यति वै तदा तेन समायुक्ता हनिष्यामः सुबोधकम् एवं संकल्पास्तिदास्ते दैत्यनायकाह ज्ञानारिस्स तथा चक्रे हृदयेन विधूयदा सुबोधो गणपं तत्रा भजत्सो नन्यमानसः निर्भयो दानवान् सर्वान् तृणीकृत्य विशेषदः तदस्तेन सुबोधेन दैत्यपुत्र युधिष्ठिर शिक्षिता प्रत्ययम् दृष्ट्वा तथा गणपमाभजन् सत्यं गणेश्यमाहात्म्यं महत्तन्नात्र संशयः सन्दृश्य दैत्यभोपाल मृदाः कक्षवदप्यहो ये सर्वत्र बाला अभजन सर्वभावेन तिरस्कृत्य विचार्यल विघ्नेशराद अभन सर्वे रस्कृत गुरो सुनर्तनम ह्यर्चनाकु दैत्यपुत्रस्ते सुबुधेन सन्वितामो नमो नमो विघ्नपद गणेश सदास्व संवेद्यपुरे निवासिन् अनादिमध्यान्तवीहीनकाय सुशान्तिदात्रे जय सर्वपूज्य एवं दृष्ट्वा स ज्ञानाधिक्रोधमादधे सहनेन समर्थो भून् मदिं चक्रे वधाय दुष्टं वरयुक्तप्रभावतः न मे मृत्योर्भवेन्नूनमिति व्यवसितो भवत् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सुबोध नामैको नामैकोन पञ्चाशत्तमोऽध्यायः ॐ